तरोपनिषत्प्रथमोऽध्याय श्रीगुरुभ्यो नमः हरि ओं सह न भवतु सह नो भुनतु सह वीर्यं करवावहै तेजस्विनावधितमस्तु भावेशावहै शां देशान् देशान्ति हरिः ॐ ब्रह्मवादिनो वदन्ते किं कारणं ब्रह्म कुत स्मरा जीवामकेन क्वच सम्प्रतिष्ठा अधिष्ठिताकेन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थां कालस्वभावो नियतिर्यदिच्छा भूतानि ज्योति पुरस इति चिन्त्यां संयोग एषां नत्वात्मभावादात्माप्यनीश सुखदुःखहेतोः तेषां न योगानि गता अपश्यन् देवात्मशक्तिं स्वगुणै निगूढां यकारणानि निखिलानि तानि कालात्मयुक्तानि अधितिष्ठत्येका मेकदेवीं त्रिवृतं षोडशान्तं सतार्थानं विंशति प्रत्यराभिः अष्टकैशजभिर्विश्वरूपैकपाशं त्रिमार्गभेदं विनिमित्तैकमोहं पञ्चश्रोतोम्बुं पञ्चयोर्म्युग्रवक्त्रां पञ्चप्राणोर्मि पञ्चबुद्ध्यादिमूलाम् पञ्चावर्ता पञ्चदुःखोपवेगां पञ्चासद्भेदां पञ्च परमामधीमा सर्वा जीवे बृहन्ते अस्मिन् हंसो ब्राह्म्यते ब्रह्मचक्रे पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्तस्ते कृतमेतत्परमं तु ब्रह्म तस्मिश्रयं सुप्रतिष्ठाक्षरं च अत्रांतरं ब्रह्मविदो विदित्वा लीना ब्रह्मवितत्परा योनिमुक्ता संयुक्तमेतक्षरमक्षरं च व्यक्ता व्यक्तं भरते विश्वरीशा अनीशश्चात्मा वध्यते भोक्तृभावा ज्ञात्वा देवमुच्यते सर्वपाशै ज्ञौ दावजाविजासे का भोक्तृभोग्यार्थयुक्ताम् अनन्तश्चात्मा विश्वरूपोषकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् क्षरं प्रधानमवृताक्षरं हरः क्षरात्मानाभीशते देव एकः तस्याभिध्यानाद्योजनात्तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः ज्ञात्वा एवं सर्वपाशापहानि क्षीरैः क्लेशैर्जन्मृत्युप्रहाणिः तस्याभिधानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः एतद् ज्ञेयं नित्यमेवात्मसंस्थं नात परं वेदितव्यम् हि किञ्चित् भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् वह्नेर्यथायो निगतस्य मर्तिर्दृश्यते नैव च लिङ्गनाशः स भूय देवेन्धनयो निगृह्य तद्वो वै प्रणवेन देहे स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिं आननिर्मथनाभ्यासाद्धं पश्येति गूढवत् तिलेषु तैलं ददमीव सर्पे आप श्रोतस्वरणीषु जाग्नी एवमात्मात्मनि गृह्यते सौ सत्यदैनं तपसायो न पश्यति सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् आत्मविद्या तपोमूलं तद्ब्रह्मोपनिषत्परम् तद्ब्रह्मोपनिषत्परम् द्वितीयोऽध्यायः यञ्जानः प्रं प्रथमं मनस्तत्त्वाय सविताधिय अग्नेर्ज्योतिर्नित्या पृथ्या अध्याभरत युक्तेन मनसा वयं देवस्य सवितो सवे स्वर्गेयाय सत्याय मनसा देवान् सुवर्यतो धियादिवम् ब्रह्म ज्योतिः करिष्यत सविता प्रसुवातितान् युज्यते मन उत धियो विप्रा विप्रस्य प्रियतो विपस्थितः विहोत्रा तथैवनाविधेक हि देवस्य सवितो परिष्टुतिः युजेवां ब्रह्मपुर्व्यं न मोभिर्विष्टोक एपथ्येव सूरे शृण्वन्तु विश्वे अमृतस्य पुत्रा आयेधावाणि दिव्याणि तस्थो अग्निर्यत्राभिपद्यते वायुर्यत्राभिविध्यते सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः सवित्राप्रसवेण दिशेत ब्रह्मपूर्व्यं तत्र योनिं कृणवशेन हिते पुरुतमक्षिपदं त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनता सन्निवेश्य ब्रह्मो रूपेण पतरेत विद्वान् सोतांसि सर्वाणि भवावहानि प्राणान् प्रविद्येह संयुक्तचेष्टः क्षीरे प्राणे नाशिकयो स्वसीत दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनोद्धारयेता प्रमत्ता समेषु चौसर्गरावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः मनोनुकूलेन तु चक्षुपीडने गुहानि वाताश्रयने प्रयोजये नेहारधूमार्गाणि लाननानां कद्योत विद्योस्फटिकसंसनीशीनाम् एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे पृथ्य पृथिव्य तेजो निलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते न तस्य रोगो न जरा न मृत्युप्राप्तस्य योगाकिनयं शरीरं लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं गन्धचु भोपुत्रपुरीसमल्पं योगप्रभृत्यं प्रथमां वदन्ति यथैव बिम्बं वृद्धोपलिप्तं तेजोमयं भ्राजतितस्तु शान्तं तद्वात्मतत्त्वं प्रसमीक्ष देहि एककृतार्थो भव देवी यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमीडेह युक्ता प्रपश्येत् अजं धुवं सर्वतत्त्वै विशुद्धं ध्यात्वा देवम् उच्यते सर्वपाशैः एषः देवं प्रदिशो नु सर्वाः पर्वो हाता तौ गर्भे अन्तः स एव जात स जनिष्यमाण प्रत्यजना तिष्ठति सर्वतोमुखः यो देवो अग्नौ योऽप्सु यो विश्वं भुवनमाविभेष य ओषधीषु यो वनस्पतिषु तस्मै देवाय न गो नमः य एको जालमानीशत ईश जीभिः लोका य एवैक उद्भवे सम्भवे च येतन् विदर्मितास्ते भवन्ति एको हि रुद्रो न द्वितीयाय लोका इमां लोकानीषत ईशनीभिः प्रत्यव्यना तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपा विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुत विश्वतस्पात् संबाहुभ्यां तमपि सपत्रै ज्या वा भूमि जनियन्दक देवा यो देवानां प्रभुवश्चोद्भवश्च विश्वादिपौरुद्रो महर्षिरण्यगर्भं जनयामास पर्वं शरोपद्या सुलया सन्ध्युदत्तो या ते रुद्रसिवातनूरखोरापापकासिनी दयानस्त्यनुवांसन्तमया गिरिसन्ता विचाकशिः यामिषं गिरिसन्त हस्ते बिभर्स्यस्तवे शिवां गिरिद्रितां पुरुमाहि वंशी पुरुषं जगत ततः परं ब्रह्मपरं यथा निकायं सर्वभूते सुगूढम् विश्वस्यैकं परिवेष्टितारमीशं तञ्जात्वा मृता भवन्ति वेदाहमेकं पुरुषं महान्तम् आदित्यवर्णं तं च परस्तां तमेवि दिव्यातिमित्युमेति नान्यपन्था विद्यते जनाय यस्मात् परं न परमस्ति किञ्चिज्यस्मान्नाडियो न ध्यायोति कश्चित् वृक्षयोस्तब्धोऽधिविधिष्ठत्येकस्तेनेन पुनषेण सर्वं ततो यदुत्तरतरं तदरूपमनामयम् य एतद्विदुरमितास्ते भवन्ति अथेतरे दुःखमेवापि यन्ति सर्वानशिरूपीव सर्वभूतगुहाशयः सर्वव्यापी स भगवान् तस्तस्मात् सर्वगतः शिवः महान् प्रभुल् वै पुरुषसत्त्वस्यै स प्रवर्तकः निर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः अङ्गुष्ठमात्रपुरुषोन्तरात्मा सदा जनानां हृदि सन्निविष्ट हेतुनामनिषो मनसाभिव्युक्तो य एतत् विदुर्मितास्ते भवन्ति सहस्रशेषा पुरुषसहस्रा च सहस्रवा तभोमिं विश्वतो वृत्त्या अत्यतिष्ठद्दथाङ्गुलम् पुरुष एवेदकं सर्वं जद्भूतै यच्च भव्यम् उतामितत्पश्येषानो यदं नेनातिरोगति सर्वतपाणिपादं तत् सर्वतोक्षिशिरोमुखं सर्वतश्रुतिमल्लोके सर्वमावृत्य तिष्ठति सर्वेन्द्रियगूढगुढाभासं सर्वेन्द्रियविवरचितं सर्वस्य प्रभुमीशानं सर्वस्य चरणं बृहत् नवद्वारे पुरे देहि हंसो लेलायते बसि सर्वस्य लोकस्य स्थावरस्य चरस्य च अपाणिपादो जवनो गृहीता पश्यत्यश्चक्षुषः शृणोत्यकर्णः स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमापुरग्रयं पुरुषं महान्तम् महतो महीयान् आत्मा गुहायां निहितो तमप्रतौ पश्यतिं गीतशोको धातुः प्रसादान्महिमानमीशम् वेदाहमेतम् अजनं पुराणं सर्वात्मानं सर्वगतं विभक्त्वा जन्मनिरोधं प्रवदन्ति यस्या ब्रह्मवादिनो हि प्रवदन्ति नित्यं चतुर्थोऽध्यायः य एको वर्णो बहुधा शक्तियोगाद् वर्णाननेकान् हितार्थो दधाति वीचयति चान्दे विसमायौष देव श नो बुद्ध्या सुजा संयुनक्तो तदेवाग्ने तदादित्यस्तद्वायो तच्चन्द्रमास्त शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः त्वमिस्त्री त्वं पुमानसि त्वं पुमारुत वा कुमारी त्वं जीर्णो दण्डेन मञ्चसि जातो भवसि विस्मृतो मुखः नीलापसङ्गो हरितो लोहिताख्यस्तर्भरि तव समुद्राः अनादिमत्त्वं विभुक्तेन वर्तसे यतो जातानि भुवनानि विश्वाम् अयामेकां लोहितशुक्लकृष्णां बहिःप्रजासमानां सरूपाः अजो शेको जुषमारो न शेते जहादीनां भुक्तभोगामजून्यः दाशपर्णाशविजा काया समानं मिथं परिस्रजाते तयोरन्याप्यपलतम् परं स्वादियत्नन्न सन्नन्योऽपि चाकशीति समाणे वृक्षे पुरसो निमग्नो अनिशया शोचति मय्यमान दृष्टं यदा पश्यन्यमीशन् अस्य महिमानमिति वीतशोकम् त्रिचो अक्षरे परमे व्योमन्यस्मिन् देवा अधिवेश्वे निषेदुः यस्तं न वेद किम करिष्यति य इत्तद्विदुष इमे समासते छन्दांसि यज्ञाकृतो व्रतानि भूतं भव्यं यच्च वेदा अस्मान् मायी सृजते विश्वमेत तस्मिंश्चान्यो मायया सन्निरुद्ध मायां तु प्रकृतिं विद्यान् मायिनं च महेश्वरम् तस्यावयोभूते स्तु ज्ञातं सर्वमिदं जगत् यो योनिं योनिमभिं तिष्ठत्येको यस्मिन् निंशं चेति सर्वं तमीसानं वरदं देवमेभ्यं नित्याये मां शान्तिमत्यन्तमेति यो देवानां प्रभुज्योद्भवश्च व्यश्वादिपौरजो महर्षिः हिरण्यगर्भं पश्यतु जायमानं शरणो बद्ध्या शुभया सञ्जिनक्तो यो देवानाम् अरिपूयस्मिन् लोका अधिसृता य ईशे अस्य अधिपतश्च पुष्पाद तस्मै देवाय पविषा विधेमन् सूक्ष्मात्सूक्ष्मं कलिलस्य मध्ये विश्वस्य सृष्टारमनेकरूपम् विश्वस्यैकं परिवेषितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेते स एव काली भुवनस्य भोक्ता विश्वाधिपसर्वभूतेषु गूढ यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च इत्येतमेवं ज्ञात्वा नृत्युपासाच्चिनत्ये हितात्मनं मण्डमिवाचनं ज्ञात्वा शिवं सर्वभूतेषु गूढम् विश्वस्यैकं परिवेक्षितावं ज्ञात्वा देवं मच्यते सर्वपाशै एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निवेष्टः यदा मनीषा मनसाभिलुप्तो य एतत् विदुरवितास्ते भवन्ति यदा तस्मन् स्तन्न दिवाररात्रि एव केवलः तदक्षणं तस्य वितुर्वरेण्यं प्रज्ञाति तस्मात् प्रसिता पुराणे नैनमरुधं न तिर्यन्तं च मध्ये परीच्यग्लभत न तस्य प्रतिमा अस्ति यस्य नाम महत्य न ना सन्दृशे रूपमस्य न चक्षुषा यदा हृदीस्थं मनसाय एनम् एवं विनिर्मितास्ते भवन्ति अजाच इत्येवं कश्चिद्भीरुः प्रपद्यते रज्जयत्ते दक्षिणं मुखं तेन मां पाहि नित्यं मानस्तोकेतनये मान आच मानो गोषु मानो अश्वे सुरीरिश वीरान्माणोज्वभामितोऽवधिर्घविष्मन्त हवामे पञ्चमोऽध्यायः द्वे अक्षरे ब्रह्मपरे त्वन्तनन्ते विद्या विद्ये निहिते यत्र गूढे क्षरं तु विद्या ह्यमितं तु विद्या विद्या विद्ये ईशते यस्तु शून्यः यो योनिं योनिमतिष्ठत्येको विश्वानिरूपाणि योनिश्च सर्वाः ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्विभरसि जायमानं च पश्ये एकैकं जालं बहुधा वि कुर्वन्नस्मिन् क्षेत्रे सहृत्यै स देव भूय सृष्ट्वां यथयस्तथे सर्वाधिपत्यं कुरुते महात्मान् सर्वाद्दिश ऋतुमधस्य तिर्यकप्रकाशयन् राजते यद्वनत्वान् एवं स देवो भगवान् वरेण्यो योनिस्वभावानधि तिष्ठत्येकः यच्च स्वभावं पचते विश्वयोनिपात्यास्य सर्वान् परिणामये तदियः सर्वमेतं विष्णुमधिष्ठत्येको गुणाश्च सर्वान्नियोजयेद तद्भेदगुह्योपनिषस्तुगूढं तद्ब्रह्मा वेद ते ब्रह्मयोनिं ये पूर्वं देवाविषयश्च तन्विजुष्टे तन्मया अमृता वै बभू गुणान्वयोय कृतस्य तस्यैव चोपभोक्ताम् सविश्वरूपत्रिगुणं त्रिवत्मा प्राणादिपसञ्चरितृकर्मभिः अङ्गुष्ठमात्रोरवितुल्यरूप सङ्कल्पाहङ्कारत्वमन्वितोऽय बुद्धेर्गुणेन आत्मगुणेन चैव आराग्रमात्रोऽयपरोपदिष्टः बालाभ्रसदभावस्य सतथा कल्पितस्य च राभो जीव स विज्ञेय स कल्पते नैव स्त्री न पुमारेश न चैवारं नपुंसकः यद्यच्छरीरमात्तत्ते तेन तेन स रक्षते सङ्कल्पनस्पर्शनं दृष्टिमोहैर्याशाम्भविष्टात् विवृत्तजन्म परमानुकार्यन्नुप्रमेण देहे स्थाने च रूपाण्यभिपद्यते स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देहे च गुणै गुणो चे प्रियागुणैरात्मगुणैश्च गुने तेषां संयोगहेतुरपरोपिदिष्ट अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमलेकरूपम् विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपासैः भावग्राशमनिदाख्यं भावाभावकरं शिवं कलासर्गलासर्गकरं देवं ये विदुस्ते चकृ षष्ठोऽध्यायः स्वभावमेकैकवयो वदन्ति कालं तथा देवस्यैष महिमाति लोके येनेदं ब्राह्मते ब्रह्मचक्रम् एनापितं नित्यमिदं हि सर्वं ज्यकालकारो गुणी सर्वविद्य तेने चितं कर्म विवर्ततेह पृथिभ्यक्तेयोनिरुखानि चिन्तं तत्कर्म कृत्वा विवर्तभूय तत्त्वस्य तत्त्वेन समेत्वयोगम् एकेन द्वाभ्यां तिभिरष्टभिर्वाक्कालेण चैवात्मगुणैश्च सूक्ष्मै आरभ्य कर्माणि गुणान्वितानि भावाश्च सर्वान् विनियोजयेद तेषामभावे कृतकर्मणा स कर्मक्षये यातिशतत्त्वतोऽन्यः आदिशसंयोगनिमित्तहेतुपरस्त्रिकालाद् कलोपि दृष्टः तं विश्वरूपं भवभूतमिजं देवं स चित्तमुपास्य पर्वं तदवृक्षकालात् देवीपरोऽन्यो यस्मापपं च परिवर्तयेयं धरमावहं पापनुदं बगेसं ध्यात्मस्थं विश्वधामं तमेश्वराणां परमं महेश्वरं तं देवतानां परमं च देवतम् पतिं पतीनां परमं परस्तापितामदेवं भुवनेश मृग्यं न तस्य कार्यं करणं च विद्यते न तस्मश्चाद्यधिकश्चिद्दिश्यते परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकीज्ञानवलक्रिया च न तस्य कश्चिन् पतिरस्ति लोके न चेसिता नैव सकारणं करणाधिपाधिपूर्वं चास्य कश्चित् जनितान् चाधिपः यस्तन्तु नाभ इव तन्तुभिः प्रधानदेशभावतः देवदेकसु माम्नोतस्वनोदधातु ब्रह्माप्यम् एको देव सर्वभूतेषु गूढ सर्वव्यापी सर्वभूतान्तरात्मा कर्माध्यब् च सर्वभूताधिवाससाेता केवलो निर्गुणश्च एको वशेन बहूनामेकं बीजं बहुधाय करोति परमात्मस्थं येन पश्यन्ति रीरा तेषां सुखं शाश्वतं नेतरेषां नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् तत्कारणं साङ्क्ययोगादिगम्यं ध्यात्वा देवम् उच्यते सर्वपाशैः न तत्र सर्यो भाति न चन्द्रतारुकं देवा विद्युतो भान्ति कुतोयमग्निः अनुभाति सर्वं तस्य भासा सर्वविधं विभाति एको हंस भुवनस्यास्य मध्ये स एवाग्नि सरले सन्निविष्ट तमेवि दिद्वा अतिनित्यमेति नान्यपन्था विद्यते नाय स विश्वकृद्विश्वविदात्मयो निरुग्यकालकारो गुणी सर्वविद्य प्रधानचैत्रज्ञपतिर्गुणे च संसारमोक्षस्तुतिगन्धयेतु स तन्नयो शमृतईशस्तसंस्तोग्य सर्वगोभुवनस्यास्ति भोक्तां य ईशे श्रीजगतो नित्यदेव नान्यो हेतुर्विद्यत ईशनाय यो ब्रह्माणं विदुधाति पूर्वं यो वैवेदान् नोचितस्मै ब्रह्म देवम् आत्मबुद्धिप्रवासं मुमोक्षुवै शरणमहं प्रपद्ये निष्कलं निष्क्रियं शान्तं निर्वद्यं निरञ्जनम् अमृतस्य परं सेतुं दब्धेन्धनं निवाननं यदा चर्मवधाकाशं भेषयिष्यन्ति मानवाः तदा देवं विज्ञाय भविष्यते। भविष्यति तपप्रभावाद् देवप्रसादाच्च ब्रह्म श्वेतास्तुतरोच विद्वान् अत्राश्रमेभ्य परमं पवित्रं प्रोवाच सम्यग् निशि सङ्गजुष्णं वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् न प्रशान्ताय दातव्यं न शिष्याय वा यस्य देवे परा भक्ति यथा देवे तथा गुरौ तस्यैतैकथिता शरथा प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मन इति ॐ सहना सहनो भुनक्तो सह वीर्यं करवामहे तेजस्विनामधीतमस्तु माविद्वशा वहै ए ॐ शां तेषां तेषान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु